अथाष्टपञ्चाशत् सर्गः ततस्त्रिशङ्कोर्वचनम् श्रुत्वा क्रोधसमन्वितम् ऋषिपुत्रशतम् रामराजानमिदमब्रवीत् प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना तम् कथम् समतिक्रम्य शाखान्तरमुपेयिवान् इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमागतिः न चातिक्रमितुम् शक्यम् सत्यवादिनः अशक्यमिति सोवाच वसिष्ठो भगवान ऋषिः तम् वयम् वै समाहर्तुम् कर्तुम् शक्ताः कथम् च न बालिशस्त्वम् नरश्रेष्ठगम्यताम् स्वपुरम् पुनः याजमे भगवाञ्छक्तस्त्रैलोक्यस्यापि पार्थिव अवमानम् कथम् कर्तुम् तस्य शक्ष्यामहे वयम् तेषाम् तद्वचनम् श्रुत्वा क्रोधपर्याकुलाक्षरम् स राजा पुनरेवैतानिदम् प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि अन्याम् गतिम् गमिष्यामि स्वस्ति वोस्तु तपोधनाः ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यम् घोराभिसंहितम् शेपः परमसङ्क्रुद्धाश्चण्डालत्वम् गमिष्यसि महात्मा विशुस्व सश्रम अथ रात्र व्यतीताया चालाता नीलवस्त्रधरो वस्त्रधरो नील पुषोधर्धज चिंत्यल्याग आयसाणवत तम दृष्ट्वा मंत्रिणे त्यज चंडालिण्प्रविता राम पौरा ये सूगान एको हि राजा काकुत्स्थ जगामपरमात्मवान् दह्यमानो दिवारात्रम् विश्वामित्रम् तपोधनम् चण्डालरूपिणम् राममुनिः कारुण्यमागतः कारुण्यात्समः तेजावाक्यम् परमधार्मिकः इदम् जगादभद्रम् ते राजानम् घोरदर्शनम् राजपुत्रमहाबला अयोध्याधिपते वीरशापा चण्डालताम् गतः अथ तद्वाक्यमाकर्ण्य राजा चण्डालताम् गतः अब्रवीत्प्राञ्जलिर्वाक्यम् वाक्यज्ञोवाक्यकोविदम् प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च अनवाप्यैव तम् कामम् मया प्राप्तो विपर्ययः सशरीरो दिवङ्ग्यायामिति मे सौम्यदर्शन मया चेष्टम् क्रतुशतम् तच्च नावाप्यते फलम् अनृतम् नोक्तपूर्वम् मे न च वक्ष्ये कदाचन कृच्छ्रेष्वपि गतः सौम्यक्षत्रधर्मेण ते शपे यज्ञैर्बहुविधैरिष्टम् प्रजाधर्मेण पालिताः गुरवश्च महात्मानः शीलवृत्तेन तोषिताः धर्मे प्रयतमानस्य यज्ञम् चाहर्तुमिच्छतः परितोषम् न गच्छन्ति गुरवो मुनिपुङ्गवा दैवमेव परम् मन्ये पौरुषम् तु निरर्थकम् दैवनाक्रम्यते सर्वम् दैवम् हि परमागतिः तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः कर्तुमर्हसि भद्रन्ते दैवोपहतकर्मणः नान्याम् गतिम् गमिष्यामि नान्यच्छरणमस्ति मे दैवम् पुरुषकारेण निवर्तयितुमर्हसि शे श्रीमद्रमाणे वालीक आदि का्यलकांडे अष्टाशर्ग